यां नक्ष्मी धनवदेष्टिकीम् लोहिनीमधुरम् dadada dadinim amangim madu sekakasukim amartam kaat nidha adhi jahi isajee akdeshwayai namaha roe yee yad dinashree namaha akdeshwayai namaha गणता कलास्तनम् श्रीमहाधनं Prano devi bhel so today we'll start with Purusha in 398 if you have mantra If you you have have Mantra don't that then something else, uh, uh, you have to look at that. Everybody got that Yeah Om satyam yo ra vrini mahe Om Om satyam yo ra vrini mahe Om satyam yo ra vrini mahe गातुम् यज्ञाय गातु गातुं यज्ञपतये गातुं यज्ञपतयेतुं यज्ञपतये दैवी स्वस् स्वस्तिरस्तु नस्तिर्मानुषेभ्यः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् जिगादुपेषजम् ओर्ध्वम् जिगादुषजम् शन्नो अस्तु द्विपदे सञ्चतुष्पदे चतुष्पदे चतुष्पदे ॐ शान्धिश्चान्धिश्चान्तिः Aum Shanti Aum Shanti Aum Shanti Aum Shanti, shanti, shanti. So Shall we try to, to, together once? Shanti, Shanti already you know we don't have to repeat twice. Okay? Once can you do it together? Yeah, I'll, together I'll, I'll, yeah, okay, it, I'll right? do it once and then you guys repeat twice and we can try it individually. ॐ तच्छं यो राभिणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये धैवी ए स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगादुभेषजम् शन्नो अस्तु द्युपदे एष्पदे शान्तिः शान्तिः शान्तिः ॐ तच्छम् घोरावृणीमहे धातुं यज्ञपतये दैवीति स्वस्तिरः पुनः नुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शं नो अस्तु द्विपतेः क्षं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ पत्यो राणीमहे दैवी स्वस्तिरस्तु नः स्वस्ति मानुषेभ्यः ऊर्ध्वम् जिगातु भेषदम् शं नो अस्तु द्विपदे शं चतुष् tate okay. om shantam te shantam dheshantehi so okay for everybody i think some people most people have heard this before sometime right this is shanti mantra anything difficult here no. no so anybody wants to try it on their own you can try ो रावृलीमहे गातुं यज्ञाया गातुं यज्ञपतये दैवी ईस्तुरस्तु नः सुस्तुर्मानुषेभ्यः मूर्धं विगातु भेषजं शं नो अस्तु द्विपरे चतुष्टदे ॐ शान्ति शान्ति शान्तिः वेरि गुड् वेरि नैस् इस् दीस् दैकेन्दु ओके ओं तच्छं योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः शान्ति ृणीमहे गातुं यज्ञाय गातु यज्ञपतये दैवी ईश्वस्तिरसु नः स्वस्ति मानुषेभ्यः ऊर्ध्वं जिगातु देशजम् ुष्पदे ॐ शान्ति वेरि गुड् नेक्स्ट् गो नेक्स्ट् ओके ॐ तच्छु योराह मे मेणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नैवी दिरस्तु नस्तिर्मानोषेभ्यः ुष्पदे ॐ शान्ति शान्ति शान्तिः गोहे ॐ तच्चं योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शं नो अस्तु द्विपदे शं चतुष्पते Okay. Okay. तच्छम् महे गातुम् यज्ञाया गातुम् यज्ञपतये दैवी ई स्वस्ति स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं षं नु अस्तु द्विपदे एष्पदे ॐ शान्ति शान्ति शान्तिः गुड् ओके गुड् वेरिसूक्तम् The the The the first one was the Shanti Shanti starts after that. So, of times people don't say शान्ति मन्द्रिप्तम् स्टार्ट् आफ़् दोड् डोन् शान्ति मन्द्रै स्टार्ट् विहस्र शीर्ष पुरुष ओम् ओम् सहस्र शीर्षा शीर्षा पुरुषः सहस्राक्षसहस्रपाद सहस्राक्षहस्रपात् सहस्राक्षहस्रपात् सर्वं विश्वतो वृत्वा अत्यतिष्ठद्शाङ्गुलम् अत्यतिष्ठतिष्ठाङ्गुलम् अत्यतिष्ठाङ्गुलम् त्यतिष्ठद् डबिल् दकारा अत्यतिष्ठद् दशाङ्गुलम् सो अत्यतिष्ठद् दशाङ्गुलं डबिल् दकार ओके नो अत्यतिष्ठदशाङ्गुलम् अत्यतिष्ठद् दशाङ्गुलम् अत्यतिष्ठाङ्गुलम् पुरुष एवेदगुं सर्वम् एवे यद्भूतं यच्च भव्यम् यद्यद्भूतं यच्च भव्यम् मृतत्वस्येषमृतत्वमृततामृतत्वस्येषानः <JUDGE Özell großes> यधन्येनातिरोहतिरोहतिरोहति एतावानस्य महिमा ye mai divama oto tyagyaagya purushaha oto tyagyaagya purushaha ato tyagyaagya purushaha okay i'll do the whole paragraph okay let's try that whole paragraph om sahas शीर्ष पुरुषः सहस्राक्षत्सहस्रपात् स भूमिम् विश्वतोभृत्वा अत्यतिष्ठद्दशाङ्कुलम् पुरुष एवेदभुं सर्वम् यद्भूतम् यज भव्यम् मृतत्वद्येषानः यधन्येनातिरोहति एतावानस्य महिमा अथोज्यायागृश्च पूरुषः ी पुरुषः सः सः प्रसात् स भुविं विश्वतो हृत्वा अस्य तिष्ठद्दशालम् पुरुष एव जगत्पद्भूतं यस्य भव्यम् उतामृतवेषा नृदन्ये नाति रोहिता या गो पुरुषः ॐ सहस्रीर्ष पुरुषः सहस्राहस्र भू विश्वतो अद्यते सर्वम्भूतं यज्ञ मन्यम् उपयुवे ya yeah. nandee ka api roopati etonga namami to yaaya gatvam urudha saroke everybody pode yeah yeah so who wants to try it on their own i can go okay go ahead हरित्यः पुरुष एव ॐ सहस्रशीर् पुरुषः सहस्राक्षसहस्रपात् भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेतकम् सर्वम् यद्भूतम् यच्च भव्यम् उता मृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च पूरुषः ॐ सहस्रशीर्ष पुरुषः सहस्राक्षसहस्रपात् सभूमिम् विश्वतो भृत्वा अत्यतिष्ठशाङ्गुलम् पुरुष एवेदगम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वशेषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च कूरुषः ओ सहस्रशीर्षा पुरुषः सहस्राक्षसहस्रपात् सभूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एव पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृत स्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायाघृश्च पुरुषः ओन्लि द लास्ट् वन् इस् पुरुषः पुरुषः ह्रस्व उकार पुरुष सहस्रहस्रपात् भूमिं विश्वतो कृत्वा दशाङ्कुलम् पुरुष एवेदगुं सर्वम् यत् च भव्यम् यद्भूतम् फ्यूचर् उता मृतत्स्वेशानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुंश्च पुरुषः Okay, there is no Jaya Gumscha, okay, it's Jaya Gushcha, there is only, okay, Ato Jaya Gushcha Purusha, Ato ja, Jaya Gumscha Purusha, It's not Gumscha, okay, Jaya Gushcha, it's only G, okay, that, that, that, on the dot on the top says it has to be high, Ato comes lower, Ato Jaya Gushcha, पुरुषः अदसद डॉट डोंट रीड इट एज़ उम्म ओके अथो ज्यायगम्स्य पुरुषः इति कतद् इति थिंक आईड अथो ज्यायागम्स्य पुरुषः इति कतद् नो डोंट से गम् Jaya G, Jaya Gischa, Gischa, okay? Ato Jaya Gischa Ato Jaya Ganscha Purusha Alright, can you do it one more time? Ato Jaya Ganscha, Ato Jaya Ganscha Purusha Okay, good. Who wants to try next? अल्गो नक्सरी ॐ सहस्रशीर्षा पुरुषः सहस्राक्षसहस्रपाभूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष ए पुरुष एव पुरुष एवेदगु सर्वम् पुरुष एवेकम् सर्वम् एवेदगं सर्वं यद् यद्भूतं यच्च भव्यम् उदामृदस् ेषा उता मृत यदनेनादिरोहति एतावानस्य महिमा अतो ज्यायाश्च पुरुषः पुरुष पुरुषः पुरुषः Atojyaya ghisya purushaha. Atojyaya ghisya purushaha. Correct. Very good. Ghisya <laughs> purushaha. Ghisya. Who wants to try next? I'll try Hari. Okay. Sahasra shirisha purushaha purushaha. सहस्राक्षसहस्रपात् स भूमिम् विश्वतो मृत्वा अत्यतिष्ठद् एवे ददुं सर्वं। यद्भूतं यच्छ भव्यम् पुम्बुसत्त्वशेषानः रोहति लर्स्ट् दास् वर्ड् टै पादोस्य विश्वाभूतानि पादोस्य विश्वाभूतानि पादोस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपाधोर्ध्वदैत् पुरुषः त्रिपादु पादूर्ध्वत् पुरुषः त्रिपादृपादूर्ध्वषः Did everybody get that? Anybody having difficulty with that? Yeah. The last one, uh, Heidi, can you repeat once? Tripadurdva. Yeah. Tripadurdva. Tripadurdva. Tripadurdva. Tripadurdva. Pudhait Purushaha. Pudhait Purushaha. उद पुरुषः त्रिपाधोर् उदय पुरुषः उदय पुरुषः उदय पुरुषः ओके थे नो प्रोब् पादो ओ सेहा भवात् पुनः पादो ओ देहा पुनः पादो पुनः ओके ओके वन् वर्षं पठि से गु वन् मोर् पाधो ओ स्वा पुनः पादो ओहा पादो ओ स्ो वा पुनः okay for everybody that one yeah yeah, yeah. okay tato vishvam yakramate tato vishvam yakramate vishvam yakramate शाशनानशने अभि शासना तस्माद् विराडजायत तस्माद् विराडजायत विराजो स जातो अत्यरिच्यत त स जा स्यत पश्चात् भूमि मथो पुरः पश्चाश्चाद्भूमि भूमि मथो पुरः Is everybody okay with this paragraph so far any difficulty any any sentences everybody is okay yeah. yeah okay so i'll do the whole paragraph okay i can repeat while padho mm -hmm. osya vishva bhutani त्रिपादस्यामृदम् दिवि त्रिपादोर्ध्व उदै पुरुषः पादो ओ सेहाभवात् पुनः ततो विश्वं व्यक्रामत् दाशनानशने अभि तस्माद्विराडजायत विराजोऽधिपुरुषः स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः आतो ओ <laughs> भूतानि कृपादसंयामृतं दिवि कृपा भूत्वा उदयपुरुषः पादौ हे सा भवात् पुनः तपो विश्वंग्राम पाशनानशने अभिना विराटजायत विराट विराजो अधिपुरुषः जातो पश्चत पश्चातोपि अधो पुरः pado ado ya biswa <sous> pavani e paida ya tam divi pado bhuv uday <-urry> gurusa pado ado deva bhavat namo yo te sagam mukti ramana शनाशमा अभिमा विराड जायतो अभिपूतः पचातु पश्चिमतु पुरः हेरि बडि ओके विदेश पादोस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्भ उदय त्रिपादूर्ध्विपादूर्ध्व उदय पुरुषः पादो ओस्येहा भवात् ततो विश्वम् व्यक्रामत् शाशनानशने अभि तस्माद् विराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्यत पश्चाद् भूमिमतो पुरः who wants to David may you go ahead go ahead pado ushya vishva bhutani tripadasyam rutam divi tripardhu tripadhurtha udhay purushah pado भवात् पुनः सतो विश्वं विक्रामत् शाशनाशने अभि शासनानशने शाशनाशने अस्तु लास् टै शाशनानशने शाशनानशने Right. तस्माद् बिराढजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद् पश्चाद् भूमिमतो पुरः So can i try that one more time hurry sure. up yeah sure sasana nashane abhi correct sasana nashane abhi good all of the sasana is on lower okay it goes tado vishvam yakramate sasana nashane abhi okay sha Ka-shana-na-shani-abdhi. Good. Ka-shana-na-shani-abdhi. Except for the name, everything else is lower. Okay. okay, who wants to try next? I can go next. Okay. Okay, go. Pa Pa-do-va-vi-shwa-bho-ta-ni. त्रिपादस्यामृदम् विः त्रिपादुर्ध्व उद्वैतपुरुषः ऊयत् दीर्घ ऊके त्रिपादूर्ध्वषः पादोऽनः पुनः पादोहाभवात् पुनः पादो स्येहात् पुनः पादो स्येहा भवात् पुनः पादो सेहा भवात् पुनः तदो विश्वं क्रमात् विश्वं व्यक्रामद्वोपद् तस्मात् आ तस्मात् विराजो अधिपुरुषः तस्मात् विराडजायत माद्विराडजायत विरातो अधिपुरुषः सजादो अतिरिच्यत पश्चाद्भूमिमधोपुरः ओके ओके पादो ओस्य विश्वाभूतानि मृतं दिवी त्रिपादूर्धूर्ध्व दीर्घ त्रिपादूर्ध द्वैपूरुषः पादोस्येहा भवत् पुनः भवात् पुनः नाट् भवत् भवात् पुनः ओके okay. okay. पादोस्य ेव पादो ओ सेहाफवात्तु नतो विश्वं वक्रामत् शासने नाशने अभि नो नो नेट् शासनानशने अभि साशना शाशनानशने अभि जायता विराजो अधिपुरुषः स जातो अतिरिच्यता पश्चाद्भूमि किन्व पादो अस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदयत् पुरुषः पादो अस्येहाभवात् पुनः ततो विश्वं व्यक्रामत शाशनानशने अभि तस्मा आद विराड जायता, विराजो अधि पूरिशहा, अजातो अत्यरिच्यता, पश्चाद भूमि मतो पुरहा. Okay, good. Go a little slower, because what happens is you, you read it uh, very easily. Uh, it comes easily to you, the Ewanagari script, right? So, go a little slower and it okay. sounds better. So, um, even though you can read faster, don't chant faster, that's all. Mm -hmm. so for example, you can say everybody had a problem with the Sasanane. You don't have a problem with Sasanane, but you should go slower, so it sounds better. Mm -hmm. Who wants to try next? Okay, I'll go. <clears throat> okay. Pado yabishwa bhutani दस्यामृतम् दिवि त्रिपादु त्व उदयत् पुरुषः पादोऽस्त्येहाभवात्पुनः ततो विश्वम् व्यक्रामत् पाशनानशने अभि तस्माद्विराडजायत जातो अत्यरुच्यत पश्चाद्भूरीट् दिगिनिङ्ग् टिल् हियर् and yeah. then thing we'll have enough time to do the next paragraph so i just said we'll do the from beginning till the paschat bhumathopura ha two times so we'll get to that correct okay ready 1 2 3 om tatcham yatcham dhora nimah he dhatum yajñaya aham yajñapataye स्वस्तिरस्थानः तिगाते मानुषेभ्यः तिगाधेषजम् शरणो अस्तु द्विपदे चतुषतुष्पदे यां शाम् तेषाम् तिष्ठान्तिः क्ष पुरुषः अह सहस्रपात् स भूमिम् विश्वनिमपि तु मृत्वा आद्य सहस्रशाङ्गुलम् पुरुषे देवेदगम् धर्मम् यद्भूतम् यच्च भव्यम् होताः यदन्येनातिरोहति एतानस्म अगोचयागश्चः पादो थ्रेपार दिवी निमृतम् दिवि उदयपुरुषः देहाभवात् पुनः विश्वम् त्यक्रामत् स्मायत वे आरापुरुषः ओके सेकेण्ड् टैम् रेडि ओन् टु त्री ॐ तौ पच्चम् यौरावृणीमहे पातुम् यज्ञाय पातुम् यज्ञपतये धैरी स्वगिरः पुनः स्वस्त्रमानुषेभ्यः ेषजम् अस्तु विपदे चतुष्पदेशाम् तिशाम् तिशन्तिः ओ सहस्रशीर्ष पुरुषः सहस्राक्षरप्रभात् ृत्वाशाङ्गुलम् सर्वम् ह्यद्भूतम्भूतं यज्ञ भव्यम्भूताम् तत्त्वः अतो निरोहतियागश्च पुरुषः विश्वा पूतानि दत्यामृतम् दिवि ेहा भवात् पुनः पिक्ष् व्यक्राम आशनानश अभि अस्मत्म विराडजायत we a yo adiku kushah tajara to adhyatya tya ta aschara adbhuja apo vipattoh kuraha zero okay people yeah yes yeah. okay. all right so we will continue next class is almost 9:30 let we we'll do tri lokam samastah and stop and tomorrow morning uh, the thing is tomorrow evening there is swami ji's uh, scripture class so we uh -huh. cannot have our pran uh, mantra so we have to do it in the morning so if uh, people are available we can do it or you can do it on your own as well okay we have all the mantras sorted uh, it sent out okay okay sure yeah. all right om lokah sukhah samastah न्ते श्रीगुरुभ्यो नमः हरिः ओम्